वार्धक्षेमिः सुशर्मा च सेनाबिन्दुश्च पार्थिवः सुकेतुः सह पुत्रेण सुनाम्ना च सुवर्चसा सुचित्रः सुकुमारश्च वृकसत्यधृतिस्तथा सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा अंशुमांश्चेकितानश्च श्रेणीमांश्च महाबलः समुद्रसेन पुत्रश्च चन्द्रसेनः प्रतापवान् जलसन्धः पिता पुत्रौ विदण्डोदण्ड एव च पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् कालिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा मद्रराजस्तथा शल्यः सः पुत्रो महारथः रुक्माङ्गदेन तथा रुक्मरथेन च कौरव्यः सोमदत्तश्च समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाशलः सुदक्षिणश्च काम्बोजो दृढधन्वा च पौरवः बृहद्बलः सुषेणश्च शिबिरौषी नरस्तथा पटश्चरनिहन्ता वासुदेवो रौक्मिणेयश्च वीर्यवान् साम्बश्चचारुदेष्णश्च प्राद्युम् निःसगदस्तथा अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः कृतवर्मा च हार्दिक्यः पृथु विप्रथुरेव च विदूरथश्च कङ्कश्च शङ्कुश्च स गवेषणः आशावहो निरुद्धश्च शमीक सारिमेजयः वीरो वातपतिश्चैव झिल्लीपिण्डारकस्तथा उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः भागीरथो बृहत्क्षत्रः जयद्रथः बृहद्रथो वाल्लिकश्च श्रुतायुश्च महारथः उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ वत्सराजश्च मतिमान् कोसलाधिपतिस्तथा शिशुपालश्च विक्रांतो जरासन्धस्तथैव च एते चान्ये च बहवो नानाजनपदेश्वराः त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि येते ये ते भेत्क्रांताे लक्ष्य मुतम विध्येत लक्ष्य वर ये शुभेदतम आदिपर्व स्वयंवरपर्वि राजमकर्तने पंचाशीत तमोध्या